ुप्रमोऽध्यायः पाकः गाम्पुरासोरणोः सार्वे अतिसंयुजपाले इन्द्रि भवति ज्ञान्त मेल मेल बुध कृषकृषवध वसत्वा लुदयिदमुषिष्वपि प्रस्थः संस इको झल् अलन्ता च लिङ्ितात्मनैपदेषु उश्च वागमः अनासि यमो मण्डले विनाशोपयमने स्थाहोरिच्च ने निष्ठासीन् मृषः मृषस्तदीक्षायाम् मृषस्तदीक्षायाम् उदुपधा भावादि कर्मणोरन्यतरस्याम् मृषस्तिदीक्षायाम् उदुपाधावादिकर्मणोरण्यतरस्याम् मृषस्ति दीक्षायाम् मृषस्तिदीक्षायाम् <laughs> ीक्षायाम् उनुपाधात् उनुपधात् उदुपधात् भावादिकर्मणोरण्यकरस्याम् उदुपधात् उदुपधात् उनुपधात् उनुपधात् उदुपधात् उनुपधात् उदुपधात् उनुपधात् दृश्य दीक्षायाम् उनुपधात् क्षायाम् उदुपरादीक्षायाम् उदुपरा तितिक्षायां प्रतिक्षायाम तितिक्षायाम् प्रतिक्षायाम् इति तितिक्ष प्रतिक्षायाम् प्रत्यक्षायाम् प्रतिक्षायाम् उदुपधात् भावादिकर्मणो रन्यतरस्याम् उदुपधात् भावादिकर्मणोरण्यतरस्याम् उदुपाधात् भावादिकर्मणोरण्यतरस्याम् ओङ्घः त्वाच ओङ्घः त्वाच ओङ्घः त्वाच ओङ्घः पुङ्गीक्षायाम् उदुपधात् भावादिकर्मम् पूङ्गत्वा च मृषस्तिदीक्षायाम् उदुपधात् भावादिकर्म नोपधात् नोपधात् स्थान्ताद्वा नोपधात् स्थान्ताद्वाच नोपधात् स्थवा पोङ्गोपधात् स्थान्ताद्वा पुङ्गचा नोपधार्थपान्ताल् वा पुच नोपधार्थपान्ताल् वारितश्च पुङ्गत्वा च नोपधार्थपान्ताल् वा मञ्चिलुञ्चरितश्च मञ्चिलुञ्चरितश्च नोपधाथपान्ताल् ितश्च नोपधाथपान् तादव मञ्चीरुञ्चरितश्च नोपधाथपान् तादव मञ्चि लञ्चरितश्च काश्यपस्य ऋषि ऋषि काश्यपस्य तृष्टि मृषि कृषे काश्यपश्या कृषे काश्यपस्या तृती मृषि कृते काश्यपस्या तृष्टि मृषि कृषे काश्यपस्या मञ्चलञ्चरितयश्च कृषिमृषे कृशे काश्यपस्य मञ्चे लञ्चरितयश्च कृषिमृषि कृशे काश्यपश्य मञ्च लुञ्चरितस्य कृषि ऋषिकृशे काश्यपस्य वञ्चिरुञ्चलितश्चि ऋषिकृशे काश्यपस्य मुङ्गहत्वा च नोपधाथ मान्तालिताश्चि ऋषिकृषे काश्यपस्य नोपुङ्गहत्वा च नोपधाथपान्ताद्वा मञ्चरुञ्चरितश्चिमृषिकृषे काश्यपस्य पुङ्गःत्वाच उपधावादिकमोरनिदर्शनम् पुङ्गः त्वाच नोपधापान्ताल् मञ्चि लुञ्चरितश्चि मृषिकृषे काश्यपस्य उदुपधाद्भावादिकर्मणोरण्यतरस्य पुङ्गहत्वा च नोपधात्थपान्तादवा वञ्चिञ्चरितश्चिमृषिकृषे दृशिमृषिकृषे काश्यपस्य देशे वृषे प्रसेयकास्य पस्य उदुपदाद्भावादिकर्मम् पुहक्त्वा च नोपधाक्षमान्ताल् वा मन्त्यल्त्य पुरुपदाद्भावादिकर्मणोरन्यतरस्याम् पुहक्त्वा च श्चिकृशे काश्य उदुपदार्भावादिकर्मणोऽतरस्याम् पु च नोपधार्थपान्ताद्वा वञ्चि लुञ्चरितश्च स्ृषिमृषिकृसे काश्यपस्य कृषि ऋषिकृशे काश्यपस्य जलवृपधास्य पूकालोध्रस्वदीर्घकृतः अच्चैर्दात्तः नीचैरन्दात्तः ऋषिकृषे काश्यपयस्य जलव्यपधादेशश्च लोज्रस्वदीर्घपुरुतः अचश्च उच्चैरुदात्तः नीचैर नीचैरन् दातः नीचैरन्दात्ता ललोपदालादे सञ्च उपालो अचश्च उच्चैरुदात्तः पधाले सन्श्च पुकारो ज्रस्वदीर्घपुरुतः अचश्च उच्चैरुदातः नीचैरन्दातः दुर्बलाम् उल्लात्वान् दात्वा मञ्चमुरितश्ची नृषीकृषे काश्यपश्च दलो विपदादलादिनश्च अचलश्च उच्चैर्तः श्रीचैरन्दात्तः पदावादिकर्मणोरण्यकरस्य ोङ्कट्वाच नोपधार्थव वञ्चि लुञ्छश्च ऋषिवृषिकृषे काश्यपस्य रलोव्यपधाद्धलादेः संश्च पूकालोज्रस्वदीर्घपूरुतः अथश्च उच्चैरुदात्तः नीचैरनुदात्तः उदुपधाद्भवाभावादिकर्मणोरन्यतरस्य पुमक्त्वाच नोपधाथपान्ताद्वा वञ्चि लुञ्चिवितयश्च ऋषिवृषिकृषे काश्यपश्च रलोव्युपधालादे सञ्च पूपालोज्रस्वदीर्घपुरुतः अथ च भावादिकर्मोपधात् सपान् साध्वा वञ्चि लोचरितश्च ऋषि मृषिकृषे काश्यपश्चो व्युपधाद्धलादे सञ्चपालो ज्रस्वदीर्घपुरुतः अतश्च उच्चैरुदात्तः नीचैरनुदात्तः